श्रीमद्भागवत् महापुराणं दशं स्कन्ध त्रिंशोऽध्यायः बद्धान्यया स्रजा काचिन्तन्मे तत्रूखले भीता सुदीपियापिधायास्यं भेजे भीतिविडम्बनम् एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरुन् विचक्षत वनोद्देशे पदानि परमात्मनः पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः लक्षन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः तैस्तैः पदैस्तत्पदवी मन्विक्षन्त्यो ग्रतो बलाः वध्वा पदैः सुपृक्तानि विलोक्यार्ता समब्रुवन् कस्यापदानि च तानि यातायानन्दसूनुना असन्यतन्प्रकोष्ठाया करेणो करिणा यता अनयाराधितो नूनं भगवान हरिरीश्वरः यन्नो विहाय गोविन्द प्रीतो यामनियद्रः धन्या अहो अमि आल्यो गोविन्दाघ्रम्बरेण वः यान् ब्रह्मे सो रमा देवी दधुर्मृधन् घन्नुत्तये तस्यामौ निनक्षोभं कुर्वन्त्युच्चैः पदा नियन्यैकापसि गोपीनाम्रहो भुङ्क्ते च्युताधरम् न लप्स्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरै खिद्यत् सुजाताङ्घ्रितलामुन्निन्ये निमान्यधिकमग्नानि पदानि वहतो वधूम् गोप्य पश्यत् कृष्णस्य भाराक्रान्तस्य कामिनः द्रावरोपिता कान्ता महात्मना। तत्र प्रसूनां वचय प्रियार्थे प्रेयसा प्रपदा प्रपदाक्रमणे एते पश्यता सकले पदे केस सा प्रां तत्र कामिन्या कृतम् तानि चूडयता कान्तामुपविष्टमिहध्रुवं रेमेतया चात्मरता आत्मा रामोऽप्यखण्डितः कामिनां दर्शनं दैन्यं स्त्रीणां चैव दुरात्मताम् इत्येवं दर्शयन्त्यस्ताश्च तेरुगोप्यो विचेतस ज्ञां गोपीमनियत्कृष्णो विहायान्यास्य यो वने सा वरिष्ठं सर्वयोषिताम् हित्वा गोऽपि कामयानामामसो भजते प्रियः ततो गत्वा मनोद्देशम् तृप्ता के समब्रवी न पार्येऽहं चलितुं नय मां यत्र ते मनः देवमुक्त प्रियामाह स्कन्ध आरुह्यतामिति ततश्चान्तर्दधे हानाथ रमणप्रेष्ठ क्वासि क्वासि महाभुज दास्यास्ति कृपणायामे सखे दर्शय सन्निधिम् अन्विच्छन्तो भगवतो मार्गं गोप्यो विदूरितः दधिसुप्रियविश्लेषमोहितां दुःखितां सखीं तया कथितमाकर्णमानप्राप्तिं च माधवात् अवमानं ततो विस्वन्वनं चन्द्रज्योत्स्ना यावद्विभाव्यते तमः प्रविष्टमालक्ष ततो निवृतोऽस्ति य तन्मनस्का सदालापास्तद्विचेष्टाः सदात्मिकाः तद्गुणालेव गायन्त्यो नामागाराणि सस्मरुः पुनः पुणीनमागत्य कालिन्द्याकृष्णभावनः समुवेता जगुकृष्णं तदागमनकाङ्क्षिताः ते शीमद्ध महापुराणे पारमहिसां चैतायां दसंस्कन्धे पूर्वार्धे रासक्रीडायां कृष्णान्वेषणम्नां त्रिंशोऽध्यायः